ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं 37 सवेन् चाक्षुषसर्गवर्णनं सुद उवाच आसीदिह समुद्रान्ता वसुधेधि यथाश्रुतं वसुधत्ते यतस्तस्माद्वसुधा सेदि गीयते मधुकैडभयोः पूर्वं मेदसा सम्परिप्लुदा तेनेयं मेदिनीत्युक्ता तदो ब्रह्मवादिभिः ततोऽभ्युपगमाद्राज्ञपृथोर्वैन्यस्य धीमतः दुहिधृत्वमनुप्राप्ता पृथिवी पठ्यते ततः तस्याकरवदी पृथुना प्रवभाग्च्धरा साधुरा रक्षिता राजपतनाकमिनी चादुवर्णमय सकीर्नाक्षिता तेनाधी मां प्रभाजी सीजसतमा नमस्व पूज्यश्च भूतग्रामेण सर्वशः ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः पृथुरेव नमस्कार्यो ब्रह्मयो निःसनातनः पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः आदिराजो नमस्कार्य पृथुर्वैन्यप्रतापवान् योधैरपि च सङ्ग्रामे प्राप्तु कामैर्जयं युधि आदिकर्तारणानां वैनमस्य पृथुरेव हि यो हि योद्धारणं यादि कीर्तयित्वा पृथुं नृपं सखोररूपसङ्ग्रामाक्षेमितरधिकीर्तिमान् वैश्यजराजर्षिर्श्य वृत्तिहाथुरेवन नमस्कार्यो वृत्तिनायश ये देवस विशेषाच दोध क्षीरमे चात्रा चयोक्ता सर्वाण्यक्रम ब्रह्मणा प्रथमं दुग्धा पुरापृथ्वी महात्मना वायुं कृत्वा तथा वत्सं बीजानि वसुधातले तदा स्वयम्भुवे पूर्वं तदा मन्वन्तरे पुनः वत्सं स्वयम्भुवं सर्वसस्यानि चैव हि तदस्वारोचिषेवापि प्राप्ते मन्वन्तरेऽधुना वत्सं स्वारोचिषं कृत्वा दुग्धा सस्यानि मेदिनी उत्तमेन धूतेनापि दुग्धा देवानुजेनतु मनुं कृत्वोत्तमम्वत्सं सर्वसस्यानि दुग्ध यम संवत्स बलबन्धुना बलबंधुना चारिष्ठवश्य वैशिठ संा मनोहर दुग्ध महपुराणेन वत्सं चारिष्ठव प्रदी चाक्षुषे चा संते तदा मन्वन दुग्ध महपुराणेन वत्सवा दु चक्षुषं चाक्षुष्तरे ते प्राप्ते वे पुनः वैनने पुरा दुग्धा यहां कथिता मैया दुग्धा पुरा पृथ्वी व्यदीते शवंतरेशु वै देमुष्यूदादिस् एवं सर्वेषु विज्ञेया अधीतानागतेष्विह देवामन्वन्तरे स्वस्थापृथोस्तु शृणुतः प्रजाः पृथोस्तु पुत्रौ विक्रान्तौ जज्ञादेऽन्तर्धि पावनौ शिखण्डिनी हविर्धानमन्तर्धानाद्यजा यद हविर्धानात् षडाग्नेयी धिषणाजनयत्सुधान् प्राचीनबर्हिषं शुक्लं गयं कृष्णं प्रजाजिनौ प्राचीनबर्हिर्भगवान् महानासीत् प्रजापतिः बलश्रुततपोवीर्यैः पृथिव्या मेघराढसौ प्राचीनाघ्राकुशास्तस्य तस्मात् प्राचीनबर्ह्यसौ समुद्रतनयांदुदार स वै सवै मखतस्तपे सवर्ना प्रजापति सवर्नाधत्सा मुद्री दश प्राचीन बर्षह सर्वान्चेतसो नाम धनुदस्गा अपृथक् धर्मचरणास्ते तप्यन्तमहात्तपः दशवर्षसहस्राणि समुद्रसलिलेशयाः तपश्च तेषु पृथिवीं तप्यस्वधमहीरुहः अरक्ष्यमाणा मा वभ्रुर्बभूवाधप्रजाक्षयः प्रत्याहृते तदा तस्मिं चक्षुषस्यान्तरे मनोः नाशकन्मारुतो वादुं वृत्तं कमभवद्रुमैः दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः मुखेभ्यो वायुमग्निंज ससृजर्जादमन्यवः उन्मूलानद स्थान् कृत्वा वायुरशोषयद तानग्निरदहद्धोर एवमासीद्द्रुमक्षयः वा द्रुमक्षयमधो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु उपगम्या ब्रवीदेतान् राजा सोमः प्रचेतसः दृष्ट्वा प्रयोजनं सत्यं लोकसन्तानकारणात् कोपं त्यजत राजानः सर्वे प्राचीनबर्हिषः वृक्षाः क्षित्यां जनिष्यन्ति शाम्यदामग्निमारुतौ रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनीः भविष्यज्जनदाह्येषा धृता गर्भेण वै मया मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता भार्या भवदुभोह्येषा सोमगर्भा विवर्धिता युष्माकं तेजसार्धेन मम तेजसा अस्यामुत्पत्स्य दे विद्वान् दक्षो नाम प्रजापतिः स इमां दभूयिष्ठां युष्मत्तेजोमयेन वै अग्निनाग्निसमो भूयप्रजा संवर्धयिष्यति तद सोमस्य वचनाज्जगृहुस्ते प्रचेतसः सद्धृत्य कोपं वृक्षेभ्य पत्नीं धर्मेण मारिषाम् मारिषायां तदस्ते वै मनसा गर्भमादधुः दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः दक्षोजज्ञे महातेजास्सोमस्यां सेन वीर्यवान् असृजन्मनः सात्त्वादौ प्रजादक्षोध मैथुनाद अचरांश्च चरांश्चैव द्विपदोध चतुष्पदः विसृज्य मनसा दक्षः पश्चादसृजतस्त्रियः ददौ दशधर्माय कश्यपाय त्रयां दश कालस्य नयने युक्ता सप्तविंशतिमिन्दवे येभ्यो दत्त्वा तदोन्या वै चतस्रोरिष्टने मिने द्वे चैव बहुपुत्रा यद्वे तथा कन्यामेकाम् कुशाश्वाय तेभ्यो पत्यं बभूवः अन्तरं चाक्षुषस्याथ मनोस्रष्टं दु गीयते मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः वसुदेवाखा गा, गावो नागादिजदानवाहा गन्धर्वाप्सरसश्चैव जज्ञिरेण्याश्च जातयः ततः प्रभृति लोकेऽस्मिन् प्रजा मैथुनसम्भवाः सङ्कल्पाद्दर्शनात्स्पर्शात् पूर्वासां सृष्टिरुच्यते ऋषिरुवाच देवानां दानवानां च देवर्षिणां च दे शुभः दक्षस्य च महात्मनः प्राणात्प्रजापदेर्जन्म दक्षस्य कथितं त्वया कथं राजेतस्त्वं च पुनर्लेभे महात्तपाः ये तन्न संशयं सुदव्याख्यातुं त्वमिहार्हसि दौहित्रश्चैव सोमस्य कतं श्वशुरतां गतः सुत उवाच उत्पत्तिश्च निरोधश्च नित्यं भूदेषु सत्तमाः ऋषयोऽत्र न सुह्यं दिविद्यावन्दश्च ये जनाः युगे युगे दे सर्वे दक्षा दक्षादयोद्विजाः पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ज्यैष्ठ्यकानिष्ठ्यमप्येषां पूर्वमासीद्विजोत्तमाः तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम् प्रजावानायुषस्तीर्न स्वर्गलोके महीयते एवं सर्गसमाख्यादश्चाक्षुषस्य समासदः इत्येते षट् निसर्गाश्चक्रान्तामन्वन्तरात्मकाः स्वायम्भुवाद्याः सङ्क्षेपाश्चाशुशान्ता यथा क्रमं ये ते सर्गा यथा प्राज्ञायः वैवस्वदनिसर्गेण तेषां ज्ञेयस्तु विस्तरः अन्यूनानातिरिक्तास्ते सर्वे सर्गा विवस्वतः आरोग्यायुप्रमाणेभ्यो धर्मधः कामदोर्धतः एदानेव गुणानेधि यः पडन्ननःसूयकः वैवस्वदस्य वक्ष्यामि साम्प्रतस्य महात्मनः समासव्यासदसर्गं ब्रुवदो मे निबोधत इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे चाक्षुषसर्गवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः ओ